मुद्गलपुराणम् खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायम् एय्ट् धूम्रवर्णावतारसमाप्ती श्रीगणेशाय नमः शिव उवाच पूर्णं गणेशाखृदि स्थितम् अहं दृष्ट्वा विप्रा विस्मिदा अभवन्द्विजाः तदस्ते धूम्रवर्णं वै पुपूजुर्भक्रिसंयुताः पुनः प्रणम्य तं सर्वे तुष्टुभुक्करसम्पुटाः देवर्षय ऊचुः अजायाध सर्वादिपूज्याय नित्यं निरालम्बनेदिस्वरूपाय ढुण्डे सदा व्यक्ररूपाय सर्वान्दगाय नमो धूम्रवर्णाय सर्वेश्वराय सदा मोहीनाय मोहप्रदाय जनेभ्यः प्रभो मोहकन्द्रे निजानां महानन्दत्रैविभ्यभावैः परे स नमो धूम्रवर्णाय सर्वेश्वराय नम सि बुद्धि पुरे गणेशपुरे वासकारिस्व संना अनाधा नाथा सर्ेरा नमो धूम्रवर्णा सदा स्वेच्छया खेलकारा तोभ्यं सगौणाय नैर्गुण्यभावाय ब्रह्मन् महाखुध्वजायाध हैरम्बकाय नमो धूम्रवर्णाय सर्वेश्वराय गजाकारतुण्डाय लम्बोदराय त्रिनेत्राय शूर्पश्रुधिक्षोभकारिन् मदासक्तयोगेन्द्रभृङ्गात्मकानां नमो धूम्रवर्णाय सर्वेश्वराय चतुर्माकवे चैकदन्दाय तुभ्यं विचित्रैरनर्घैस्तु सम्भूषिताय अलङ्कारकैर्देवदेवेश पात्रे नमो धूम्रवर्णाय सर्वेश्वराय त्वया सृष्टमाद्यं समं सर्वभावयुधं मोहदम्मायिनां नन्दनाद्वै तदा काररूपेण तत्स्थाय भूम्ने नमो धूम्रवर्णाय सर्वेश्वराय त्वया प्रेरितेनाथ तेनापि तेना सृष्टं सदात्मस्वरूपं परं जीवनं यत् अभेदात्मकं तत्र संस्थाय तुभ्यं नमो धूम्रवर्णाय सर्वेश्वराय ततस्तेन सृष्ठं सदा भेदकानां निजं दैवतं ब्रह्मभावेन तत्स्थं तदाकाररूपेण तस्थाय ब्रह्मन् नमो धूम्रवर्णाय सर्वेश्वराय असद्भावयुक्तेन सृष्टं विदेहं परं ब्रह्म साङ्ख्यात्मकं मूलबीजं त्वया प्रेरितेनात्र वासप्रदायिन्नमो धूम्रवर्णाय सर्वेश्वराय स्वतोत्थानरूपं विदेहेन सृष्टं त्वदीयप्रबोधेन विघ्नेश्वराय तदाकाररूपाय तत्रस्तकाय नमो धूम्रवर्णाय सर्वेश्वराय ततस्तेन ते सृष्टमाद्यं सतैकस्वरूपं परं सोऽहमेवं तथा च तत्रैव संस्थः परात्मन्नमो धूम्रवर्णाय सर्वेश्वराय त्वया प्रेरिते नाथ तेनैव सृष्ठं प्रमूलं महद्बिन्दुरूपं सदा साहजेनैव योगेन तस्थो नमो धूम्रवर्णाय सर्वेश्वराय तदो नादरूपं समं यत् परं सूक्ष्मरूपं ततस्थूलभावं चतुर्धाशरीरं विनिर्माय खेलिन्नमो धूम्रवर्णाय सर्वेश्वराय नमो, नमो विश्वरूपाय सर्वाकराय ह्यनन्दाननाद्यै सुचिह्नाय तुभ्यं भोगिन, नमस्ते भोगिन्नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय शराय दधेस्थावरायैव नमो सृष्टिकर्त्रे सुपात्रे हराय प्रकाशाय सूर्याय देवीमयाय नमो धूम्रवर्णाय सर्वेश्वराय नमो देवयक्षाय साध्याय तुभ्यं नरायाधदेवेन्द्रदेवात्मकाय दिगीशाय वृक्षादिबीजात्मकाय नमो धूम्रवर्णाय सर्वेश्वराय नमः सर्परूपाय दैत्यात्मकाय समुद्रादिनाप्रभेदस्तमूर्ते अनन्तैः स्वरूपैः सदा क्रीडसि त्वं नमो धूम्रवर्णाय सर्वेश्वराय तथापित्वमेवं तदा, तदा कारकेन सदा साहजेनैव योगेन योगिन् स्वसत्तात्मकायैव तुभ्यं नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय अधो वेदबादाविशेषेण धूम्र भवन्धिह्यहो वर्णितुं ते स्वरूपं बुद्धै कथ्यसे धूम्र वर्णस्ततस्त्वं नमो धूम्रवर्णाय सर्वेश्वराय सुशान्तिं गदा वेदयोगीन्द्रमुख्यास्त्वयि ब्रह्मनाथे सदा धूम्रवर्णे वयं किं स्तुवीमोऽल्पबोधा नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय श्रीशिव उवाच एवं स्तुत्वा गणेशानां प्रणेमुरमरर्षयः तानुवाच महाभागान् धूम्रवर्णः प्रदापवान् धूम्रवर्ण उवाच वरान् ब्रूदमहाभागा तस्यामि स्तोत्रदोषितः देवर्षयो हृदि स्थान् स्तोत्रं भवत्कृतं मेदु सुसिद्धिदं ब्रह्मभूयकरं विप्रभविष्यति न संशयः पुत्रपौत्रकलत्रादिसौख्यदं धनधान्यदम् आयुरारोग्यकैश्वर्यदायकं प्रभविष्यति पठदे शृण्वदेवा नानाभावप्रपूरकं धर्मार्थकाममोक्षाणां दायकं, नाना दायकं भजदामिदम् मारणो चाडनादीनिह्येकविंशतिपाठतः एकविंशतिभिर्नित्यं दिवसै प्रभवन्ति हि परकृत्यादिकं सर्वं नाशमे दिनसंशयः अनेन स्तोत्रमुख्येन स्तुवतः सर्वदाद्विजाः द्विजाः यं कामं तं तं दास्यामि सर्वदा स्तुतो ने नमः देवास्तोत्रेण तुष्टिमागतः श्रीशिव उवाच देवर्षयो धूम्रवर्णवच श्रुत्वा प्रणम्यतं प्रहृष्टमनसो देवं सर्वसिद्धिकरं जगुः देवर्षय ऊजुः धूम्रवर्णत्वयानाथकृदः शान्तिधरः सदा अहं तेन वयं सर्वे वरयुक्ता कृदा किल अहङ्कारे प्रशान्ते दुःस्वाधिकारे वसामहे वर्णाश्रमयुधालोका भविष्यन्ति द्विजादयः वृणुभक्तिं गणाधीशदेहि भक्तिं, भक्तिं त्वदीयकाम् अहङ्कारभयघ्नीं वै तया तुष्ठा वयं प्रभो तथेदि तानुवाचासौ धूम्रवर्णो गणेश्वराः अन्तर्दधे दे भवन् देवामुनयष्टं नतास्तदः स्थापया मासुरानन्दात् धूम्रवर्णं दिगन्धरे क्षेत्रे तत्र गणेशानं पूजया मासुराधराध स्वे स्वे पदे च दे हर्षसमन्विताः सुखि न स्वस्वकार्येषु वर्तते गणभेरतः यदध्वकथितं चित्रं चरित्रं सर्वसिद्धितं अहङ्कारभयघ्नं च पठतां शृण्वतां भवेत् एवं नानावतारान् स धूम्रवर्णः प्रतापवान् धृत्वा चकारविश्वं तु निर्विघ्नं भक्ृभावितः धूम्रवर्णावताराश्चानन्तास्तेषां चरित्रकं कथितुं नैव शक्यं तत्कदा भवदि केनचित् अतः संक्षेपदप्रोक्तं मुख्यावतारचेष्टितं सनकाद्या गणेशानां भजध्वं भावसंयुताः तेनाहङ्कारनिर्मुक्ता भविष्यधनसंशयः योगीन्द्रयोगिवन्द्याश्च शान्तिदा शान्तचेतसे ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते धूम्रवर्णावतारसमाप्तिर्नाम अष्टमोऽध्यायः ॐ